सर्वेषाम् अस्मिन् पाणीयव्याकरणवर्गे स्वागतम् येनाक्षरसमान्यायमधिगम्यमहेश्वरात् कृष्णं व्याकरणम् प्रोक्तम् तस्मै पाणिन्यये नमः येन धौदागिरः पुंसां विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिन्यये नमः वाक्यकारं वररुचिं भाष्यकारं पदञ्जलि पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं ॐ श्रीक्ष अस्माकं पाठः अस्ति धातुविज्ञानं द्वितीयं द्वितीयः धातुविज्ञानं प्रथमपाठे किमासीत् इति चेत् युत्संज्ञाविषये पाठः आसीत् अत्र तत् सम्पूर्णरीत्या वयम् अधीतवन्तः सप्तसूत्राणि युत्संज्ञाविधायकसूत्राणि सन्ति एकः इत्संज्ञानिषेधसूत्रं पश्चात् एकसूत्रं लोकविधायकसूत्रं तादृशम् आसीत् अत्र एकः एव सूत्रम् अच् कृते वर्तते परन्तु अन्धे विद्यमानस्य कृते एक सूत्रम् अन्यसूत्राणि ये सन्ति तेभ्यः वर्णस्य कृते उक्तः वर्तन्ते आद्य नीडु तवः अपि चुठु एतद् उपसूत्रद्वयमपि न शुकुतद्यते यत् त्रयमपि आदौ विद्यमानस्य मरणस्य कृते एव अस्ति पश्चात् धातुविज्ञानं द्वितीयभागः तत्र सत्त्वम् इति भागः सत्त्वम् इत्यनेन किमुच्यते इति उपदेशावस्थाना अवस्थायाम् यदि धातोः आदौ कारः अस्ति चेत् अस्य षकारस्य सकारादेशः भवति तर्हि मूलधातुतः कथं लौकिकरूप सिद्धिः इति एव अस्माकं विषयः तत्र प्रथमकार्यमस्ति इत्संज्ञा वर्णस्य लोपकार्यम् तदानीं किं सिद्ध्यति मूलधातु यदस्ति तद् औपदेशिकधातु इति वदामः यत् इत्संज्ञालोपानन्तरं प्रक्रियार्थम् यः धातुः सिद्धः अस्ति तद् दे आदिदेशिकधातुः इति वदामः तस्य स्थाने तादृशधातोः आदौ इति शकारः अस्ति चेत् अस्य शकारस्य सकारादेशः भवति सत्वम् इति सूत्रेण अत्रापि एकं निमित्तापाये नैमित्तिकस्य अभावः इति एकम् किम् पठितमत्र सुसृतप्रभावः इति पठितं खलु तद् तादृश किम वार्तिकम् इव कस्यचित् नियमः अनेन किं भवति इति चेत् तत्र पूर्वमेव दृष्ट षत् इति मूलधातुः आस्ति अस्य स्तोकोष्टुनाष्टु इत्यनेन ष्ठा आदेशः किं भवति षकारः ठकारः इति आसीत् पुनः दात्वा दासय शः सः इत्यनेन सकारः यदा आदेशो भवति तदानीम् सकारस्य व्याधः इति कारणात् इदानीं षकारः अत्र नासीत् षकारः एव निमित्तम् आसीत् शोः स्तोहोष्टु नाष्टु इत्यत्र असां निमित्तस्य अपाये नैमित्तिकस्यापि अभावः इति पुनः अत्र ठकारः एव तिष्ठति ठकारः अवगच्छति इति अत्र उक्तवान् <coughs> अग्रिमं सूत्रमस्ति नत्वविधायमि नौनः इति सूत्रेण धात्वादेः नौनः उपदेशावस्थायाम् अत्र धातोः आदौ नकारः अस्ति चेत् अस्य नकारस्य नकारादेशः भवति इति उक्तम् अत्रापि आदौ अत्रा किं करणीयं धातु स्वीकरणीयं आदौ यदि कारः अस्ति चेत् अस्य सकारः भवति इति पूर्वतनसूत्रेण उक्तम् इदानीं षकारः अस्ति चेत् नकारः अस्ति चेत् अस्य नकारादेशः भवति अपि च पूर्वम् एकं निमित्तापाये निमित्तस्य अपि अपायः इति यद् पठितं तत्र इतोपि एकं चिन्तनम् तादृश इङ्गितम् अस्ति इति शास्त्रीयचिन्तनम् अपि वर्तते अत्र शास्त्रीयचिन्तनं किम् इति एकवारं पश्यामः तर्हि अत्र उक्तमासीत् पूर्वत्र सिद्धम् इति शास्त्रीयचिन्तनम् एतत्तु बलाबलचिन्तनमस्ति तयोः मध्ये धात्वादेः शः सः इति सूत्र सू सूत्र अपेक्षुषु किम कार्य देहे तहत्वादे सहासा सूत्र से आ, संख्या अष्टमाध्याय ष्टाध्याय सेथम पद सेमसूत्रमस्तोष्टुना सूत्रम अष्टमाध्याय चतुर्थप नवच्व सूत्रमस् तरी ते क्य सूत्र से प्रसृति बलवत्म प्रश्न अभी चूवत्र सिद्धमित एक शास्त्रीयचिंतन उक्तमस्त पूंम कि अष्टाध्या प्रत्येक अध्या चर पाद सहतेश पादा सी तु सप्तम सप्त अध्याय अभी चम अध्याय प्रथम पाद मिद अष्टाध्यायी वक्ताध्यायी वा, वाला पश्चात अकं पाद वर्त है ु तध्यायी एक तर्हि द्विपाति अपेक्षया सपादषष्टा अष्टाध्यायी सप्ताध्यायी बलवद्वा इति द्रष्टव्यं तदेव अत्र चिन्तनम् दात्वादेशे शः सहा इति सूत्रं कुत्र वर्तते इति चेत् षष्टाध्यायस्य प्रथमपादे अस्ति तर्हि तद् सपादसप्ताध्यायां वर्तते इति ज्ञातव्यम् द्वितीयसूत्रम् यदस्ति दा स्तोष्टु दाष्टु इति अयं सूत्रं कुत्र वर्तते इति चेत् त्रिभाध्यां वर्तते तर्हि अत्र ष्ठा धातोः प्रसङ्गे उभयोः सूत्रयोः प्रसक्तिः अस्ति खलु यतोहि स्तोःष्टु दाष्टु इत्यनेन ठकारस्य ठकारः भवितुम् अर्हति अपि च धात्वा तेः शः सः इत्यनेन शकारस्य सकारादेशः अपि भवितुम् अर्हति तर्हि अत्र कस्य सूत्रस्य प्रसक्तिः अत्र एकम् अस्ति द्रोहि सपादसप्ताध्याय्याम् यानि कार्याणि वर्तते तत्र तद् सपादसत्याध्यायीदृष्ट्या क्षम्यतां विपरीतेन उक्तवती त्रिपाद्यां यद् कार्यं वर्तते तद् सपादसत्ताध्यायां विद्यमाना विद्यमानानां सूत्राणां द्रष्टुं न शक्यते तेषां कृते तादृशकार्यम् असिद्धम् इति वदामः दो हि नास्ति इति कारणात् पृष्ठतः अस्ति खलु अत्र न द्रष्टुं शक्यते अतः अत्र यत् कार्यं जातं तद् तेषां कृते न अज्ञातमस्ति अतः तादृशकार्यम् किमपि भवति आसीत् इति ते तानि सूत्राणि न अवगच्छति अतः तेषां दृष्ट्याम् इदानीमपि षकारः थकारः एव वर्तते अतः यदा षकारस्य स्थाने सकारादर्श भवति स्था रूपं सिद्ध्यति इति तदेव अत्र असिद्धव्यवस्था इति पूर्वत्र सिद्धम् इत्यस्य कार्यम् अवगतं वा मन्दं मन्दम् अवगतं <laughs> तद् पाठे आगच्छति भगिनि बहुवारं पठितं चेदेव तस्य अवगन् न शक्यते चिन्नं चिन्ता तर्हि वयं धनिनः इत्यनेन नकारस्य नकारः भवति इति उक्तं तत्र उपसर्गयोगे नत्वनिमित्तम् अस्ति चेत् किं भवति नकारस्य नत्वादेशः भवति इति अपि उक्तम् अत्रापि अस्य सू नत्वं कार्यं भवति समासे अपि च असमासे अपि तदर्थमपि एकसूत्रम् वर्तते इदानीं नुमागमः चिन्तनम् अट्कुप्नुम् विवाहे अपि इति सूत्रस्यापि अनु अनुवृत्ति अस्ति उपसर्गात् उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रम् तर्हि इदानीं नुमागमः तत् पठिष्यामः एकनिमिषम् वल्सलभगिनि भगिनी एव आरम्भं करोतु हा नुमागमः ततः पठतु नुमागमः इतितो नुम नुम् धातोः धातोः इदितो नुम् धातोः इदितः धातोः नुम् आगमो भवति इदित् इत्युक्ते इत् इत् इत यस्य सः तत्र प्रथम इत् नाम ह्रस्व इकारः द्वितीय इत् नाम इत्संज्ञा हस्व इकारस्य इत्सज्ञा यस्य सः धातुः इदित् इत् इत् यस्य स इति बहुव्रीहिः तस्य इदितः इदितः षट्यन्तं नु प्रथमान्तं धातोः षट्यन्तम् त्रिपदमिदं सूत्रम् सूत्रम् स्वयम् सम्पूर्णम् इदितः धातोः नु अवगतम् भगिनि तर्हि यः दातुः इदित् अस्ति तस्य नुगा नुमागमः भवति इति इदम् सूत्रम् सूचयति बहवः इदितः दातवः सन्ति यत्र कुत्रापि दातो दातौ ह्रस्वै ह्रस्वै ह्रस्व इकारस्य इत्संज्ञा भवति तस्मिन् दातौ नुम् भवति एव सः दातुम् इदित् अस्ति अत नु मागत नुमागमः यथा निद्दिद् नो नः इत्यनेन निद् निद् अयम् धातुः इद् नाम ह्रस्वः इकारः इत् यस्य सः निद् धातोः इत् इत् अस्ति इति कारणेन नुमागमः अधुना निर्दातो नुम् कुत्र आयाति नुम् आगमः मित् अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रम् अस्ति दिस् सेण्टर् सैड् अधुना निर्दातो नुम् कुत्र आयाति मित् अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयात् इति अग्रिमम् सूत्रम् वक्ति अग्रे आगमे हलन्त्यम् इत्यनेन मकारस्य इत्संज्ञा उपदेशे अनुनासिक इत्यनेन अकारस्य इत्संज्ञा न इति अवशिष्यते इन् इति अवशिष्यते उपदेश उपदेशे अनु अजनुनासिकस्य इत् इत्यनेन उपकारस्य इच्छन्या इन् इति उप अवशिष्यते तावत् hmm. भगिनि <laughs> इदानीं <laughs> किञ्चित् पूर्वत्र सिद्धम् इत्यस्मिन् विषये उक्त्वा एतद् वदामि कर दो करोतु भगिनि अत्र पूर्वत्रसिद्धम् इति अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रम् वर्तते अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रम् एट् पायिण्ट् टु पायिण्ट् वन् सूत्रस्य सूत्रार्थः एवम् अस्ति अधिकार सूत्रा एतत्तु अधिकारमस्ति पूर्वत्रासिद्धम् इति अधिकारः अपि अधिकारसूत्रम् पूर्वत्र सिद्धम् इति अधिकारः स्वपादसप्ताध्यायीम् प्रति त्रिपादी असिद्धा वर्तते त्रिपाद्यामपि पूर्वशास्त्रम् प्रति परम् शास्त्रम् असिद्धम् वर्तते इति सूत्रस्य अर्थः तर्हि इदानीम् अष्टाध्यायी अष्टाध्यायी विभक्तमस्ति एकस्मिन् पार्श्वे सप्ताध्यायः अपि च अष्टमाध्यायस्य प्रथमपादः सपाद सप्ताध्यायी अपि च द्वितीयभागः यद् वर्तते तत्र पादत्रयम् वर्तते त्रिपादी इति वदामः तर्हि अयम् अधिकारः अस्मात् सूत्रात् आरभ्य अष्टाध्यायः अन्तिमम् सूत्रम् यावत् प्रचलति इत्युक्ते एय्ट् पायिण्ट् टु पायिण्ट् वन् आरभ्य सम्पूर्ण अष्टाध्यायी अन्तिमभागपर्यन्तम् आगच्छति अस्मिन् अधिकारे विद्यमानानि सर्वाणि सूत्राणि पूर्वसूत्राणाम् कृते असिद्धानि तदेव अत्र नियमः पूर्वसूत्रम् परसूत्रम् यत् करोति इति न पश्यति न अवगच्छति अतः तस्य कृते यदि पूर्वं स्थितम् सूत्रम् इदानीम् एट् इति अधिकारसूत्रमस्ति तर्हि एयट् पायिण्ट् टु पायिण्ट् टु करोति तद् एय्ट् पायिण्ट् शक्यते परन्तु एय्ट् पायिण्ट् करोति तद् एयट् न द्रष्टुं शक्यते तदेव तदे अत्र नियमः अतः यद् परसूत्रं करोति तत् पूर्वसूत्रस्य दृष्ट्या असिद्धा इति एव अत्र उक्तमस्ति प्रकृतसूत्रात् पूर्वम् विद्यमानानि यानि सूत्राणि तेषाम् प्रथमः भागः अस्मिन् भागे आदिस्थाः सप्त अध्यायाः तथा च अष्टम अध्यायस्य प्रथमपादस्य सर्वाणि सूत्राणि वर्तन्ते तदेव सपादसप्ताध्यायी इति वदामः अयम् भागः सपादसप्ताध्यायी नाम्ना जायते सप्तानाम् अध्यायानाम् समाहारः सप्ताध्यायी पादेन सह सप्ताध्यायी <coughs> सपाद इति सपादसप्ताध्यायी इति अस्याः सपादसप्ताध्याय्याः कृते सत् तस्याः अनन्तरम् इत्युक्ते अष्टमाध्यायस्य प्रथमपादात् अनन्तरम् अष्टमाध्यायस्य मीन्स् एत् चाप्टर् अस्य प्रथमपादस्य अनन्तरं पादात् अनन्तरम् अष्टाध्याय्यां किमपि न विद्यते दोहि यत् सूत्रं प्रथमसूत्रमस्ति इदानीं पूर्वत्र असिद्धम् इति सूत्रेण किम् उच्यते अस्य सूत्रस्य अनन्तरं किमपि वर्तते चेदपि तस्य दृष्ट्या किमपि नास्ति इति एव उच्यते तद् न इति कारणात् अन्तिम अहमेव सूत्रम्, इति सर्वे सूत्राणि तदेव चिन्तिनं तेषाम् कृते इदानीं तृतीयभागः इत्युक्ते पूर्वत्र सिद्धम् इति 8.2.1 पायिण्ट् टु पायिण्ट् वन् इति उक्तम् ततः आरभ्य यानि सूत्राणि तेषाम् द्वितीयभागः इति उच्यते अस्मिन् भागे अष्टमाध्यायस्य अन्तिमानां त्रयाणाम् पादानाम् सर्वाणि सूत्राणि वर्तते इत्युक्ते एय्ट् पायिण्ट् टु एय्ट् पायण्ट् त्री एय्ट् पायन्ट् फोर् एतेषु विद्यमानानि सूत्राणि सर्वाणि द्वितीयभागे वर्तते त्रिपादी अयम् भागः त्रिपा त्रिपादी नाम्ना जायते त्रयाणां पदानां समाहारः त्रिपादी अस्याः त्रिपाद्याः प्रत्येकम् सूत्रस्य कृते तस्मात् अनन्तरम् अष्टाध्याय्याम् किमपि न विद्यते इति भावः इत्युक्ते त्रिभाद्या प्रत्येकसूत्रस्य कृते अहमेव अष्टाध्याय्याः अन्तिमम् सूत्रम् इति भावः वर्तते इदानीम् अत्र किं किं स्मर्तव्यः अंशः के के इति वदामि एकवारम् त्रिवा त्रिपाद्य अपेक्षया सपादसप्ताध्यायाः सूत्राणां बलवत् बे... अस्ति त्रिपाद्या अपि परसूत्राणाम् अपेक्षया पूर्वसूत्राणाम् बल भल, बल बलीयस्थम् अस्ति सपादसप्ताध्याय्याः सूत्रैः त्रिपाद्याः सूत्राणाम् अदर्शनम् तेभ्यः न द्रष्टुम् शक्यते त्रिपाद्याः पूर्वसूत्रैः त्रिपाद्याः परसूत्राणाम् अदर्शनम् इति एव स्मर्तव्यः अंशः तर्हि सपादसप्ताध्यायीम् प्रति त्रिपादि असिद्धा त्रिपाद्यामपि पूर्वम् प्रति परम् शास्त्रम् असिद्धम् इति अत्र संक्षेपः विपरीतरीत्या वक्तव्यं चेत् त्रिपाद्याः अपेक्षया सपादसप्ताध्यायी सूत्राणाम् बलीयस्थम् वर्तते अतः किम् कार्यम् करोति इति चेत् सपादसप्ताध्यायम् विद्यमानानि सूत्राणि एव त्रकार्यम् करोति यद् पूर्वसूत्रमस्ति तस्य एव कार्यम् भवितुम् अर्हति तर्हि अत्र इदानीं स्पष्टता अस्ति इति चिन्तयामि कोपि अत्र पाठे आगच्छति तस्मिन् समये पश्यामः तर्हि इदानीं मुमागमविषये चिन्तयामः इतोनुम् धातोः इदितः धातोः नुम् आगमः भवति इत्युक्ते नुम् आगमः कुत्र भवति इदितो आगमः इदिदोनुम् धातोः इति सा सूत्रमस्ति इति धातोः नुम् आगमः भवति इति अत्र उक्तमस्ति इति इत्युक्ते किम् इति का रहा इत्र यूत्रे इत् ह्रस्वकार तदव इतिद्रत् ह्रस्वकार यतौ उपदेशि औपदेशिवस्थाया इकार इत्क अस्त धाग द्वितीय इति नाम इत् इत् उक्तमस्ति खलु इदित् इत्यत्र इत् इति यच् सः इति उक्तमस्ति तर्हि द्वितीय इत् इति अस्ति खलु इति नाम्ना किम् इति इत् संज्ञा ह्रस्वैकारस्य इत् भवति इति सूत्रस्य द्वितीय इत् इत्यनेन उक्तम् ह्रस्वैकारस्य इत् संज्ञा तादृशदातुः यदस्ति सः धातुः इदित् इति वदामः इत् इति यस्या सः इदित् अतः तद् किम् अस्ति बहुव्रीहिसमासः अस्ति बहुव्रीहि समासः पूर्वमेव वयं पठितम् अत्र अन्यपदप्रधानम् अस्ति तर्हि इदित् इद् इदित् इत् इकारः इत् यस्य धादोः वर्तते तादृशदातुः अस्ति इदित् इदितः इति षष्ट्यन्तं पदमस्ति इदित् इति प्रातिपदिकम् इदितः इति षष्ट्यन्तं पदमस्ति यदा सरित् इति अस्ति खलु सरितः नुम् इति आगमः अस्ति नुम् प्रथमान्तं शब्दमस्ति धातोः इति षष्ट्यन्तं पदम् धातोः स्थाने इति त्रिप त्रिपदम् इदम् सूत्रम् सूत्रम् स्वयम् सम्पूर्णम् यतो हि इदितो नुम् धातोः इति इत्यनेन सम्पूर्णसूत्रार्थः ज्ञातुम् शक्यते तर्हि सूत्रम् स्वयम् सम्पूर्णम् अत्र कोऽपि अनुवृत्ति नास्ति तर्हि यः धातुः इदिटस्ति तस्य नुम् आगमः भवति ुम् इति आगमे किम् भवति इति चेत् नुम् नकारः उकारः मकारः वर्णत्रयम् वर्तते तेषु मकारः, हलन्दिम् इत्यनेन इत्संज्ञा भवति उकारः उच्चारणार्थम् नकारः एव अवशिष्यते तर्हि इदानीम् अत्र मकारस्यापि इत्संज्ञा भवति खलु त् सू... वह मकार इत् यहाँ तह नुम आगम मित् वाला नुमागवती इद्म सूत्रम सूचय बहव इतिव सुरा धातौ ह्रस्व इत्सावती तस्तौ नुम आगमती अन सूत्रे सः धातुः इदिट् अस्ति अधः नुमागमः भवति नु इदिट् धातुः अस्ति इति कारणात् नुमागमः भवति तर्हि अयम् आगमः इति उक्तत्वात् आदेशः अस्ति चेत् कस्य वर्णस्य स्थानेकः स्थाने येन आदेशः इति वदामः परन्तु यत्र आगमः इति उक्तं चेत् अत्र कुत्र आगच्छति इति वक्तव्यं खलु स्थान स्थानम् आवश्यकं तर्हि तदेव उच्यते यदा अग्रिमपरिच्छेदः अनन्तरं पठामः मितचोन्द्यात् परः इति एकं सूत्रमस्ति खलु अग्रिमसूत्रं सूत्राणां किम् उच्यते इति पश्यामः यः मित् अस्ति इदानीं नुमागमः मित् अस्ति इति मया उक्तम् तर्हि मित् सः अच्छुवर्णेषु अन्त्यात् आयाति अचुवर्णेषु अन्त्यात्परः आयाति इति उक्तम् अतः इदानीं निद् इति अतुः अत्र दत्तमस्ति निद् इत्यत्र नौनः इत्यनेन नकारस्य नकारः भवति तर्हि निद् इति पूर्वतनपरिच्छेदे पश्यतु नित् इति भवति निद् इत्यत्र निर् इति सर्वे अवगतं खलु निद् इति भवति अत्र अन्तिम अचुवर्णः कः इति इदानीं वक्तव्यं वस्त्रभगिनी वदतु निद् वर्णविच्छेदं कृत्वा कः अन्तिम अचुवर्णः इति वक्तव्यं निद् इद् इद् अन्तिमवर्ण मम प्रश्नः शृणोतु वर्णविच्छेदं प्रथमं करोतु अन्तिम अचुवर्णः कः इति वक्तव्यम् अच्युवर्णः अच्युवर्णः नास्ति किल हमीच इत्यत्र भगिनी इस् इद् ओन्लि इट् इस् हलन्त्यम् ओन्ली इद् इस् हलन्त्यम् अत्र अत्र कः वर्णः अन्तिमवर्णः इति मम प्रश्नः न आसीत् मम प्रश्नः आसीत् अन्तिम अचुवर्णः कः इति खलु इ निद् इ अन्तिम अचुवर्णम् अत्र वर्णविच्छेदं करोतु वर्णविच्छेदं करोतु इन् प्लस् इद् प्लस् इद् निद् नकारः इकारः दकारः एतेषु त्रिषुकः वर्णः अचुवर्णः इकारः इकारः अयं वर्णः एव अत्र अन्तिमः चुवर्णः आ, मित मितचोन्त्यात् परहा इति सूत्रम् किं व वदति इति चेत् मित् आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरात् अनन्तरम् आगच्छति इति पुनः वदामि मित आगमः शृणोतु एकवारम् एकवारम् एकवारं शृणोतु मित् आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरात् अनन्तरम् इति उक्तम् तर्हि प्रकृत प्रकृते किम् अस्ति मित, नित मित् नित् अस्ति खलु निन्द् नित् इति अस्ति निद् निद् इति भवति नित् जातं चेत् अत्र नकारः कुत्र आगच्छति प्रथम आगच्छति न प्लस् इ अन्तिम अचुवर्णस्य अनन्तरम् इति उक्तं तर्हि कुत्र अनन्तरम् इद् आगच्छति नकारः इकारः पुनः नकारः दकारः आगमः खलु ओके तर्हि निन्द् इति भवति निन्द, निन्द् अवगतं वा अवगतम् अवगतम् अच्चवर्णस्य अनन्तरं नकारः आदेश आगमरूपेण आगच्छति इति एव अत्र नुमागमः इति विषयः तर्हि विमलाभेगिनी अत्र यदा निन्द् इति स्वीकृत्य नुमागमः विवरणं करोतु करोतु भगिनि वस्त्रा भगिनि विमला भगिनी न श्रूयते भगिनि सुशीला भगिनी वक्तुं शक्यते वा आम् अन अत्र किं वक्तव्यम् इति चेत् नौनः इति अस्ति खलु निट् दातु यदस्ति तत्र गमः कथम् इति वक्तव्यम् न श्रूयते भगिनि सुशीला भगिनी भगिनी करोतु भगिनि अहं बहिः अस्मि भगिनि चिन्ता मास्तु ललिता भगिनि नमस्ते भगिनि नमस्ते भगिनि अत्र कथम् इति वक्तव्यंकारस्य आगमः कथम् कथं कथं आदिमवर्णः अत्र पश्यतु पश्यतु पश्यतु द्रष्टुं शक्यते खलु नूनः इत्यनेन निट् निट् अश्वधातोः नाम सम्यक् निट् धातोः पठनीयमेव न भगिनि अव इदानीं पठित पठितं खलु तत् किम् अवगतं तत् वदतु दृष्ट्वा वदतु तावदेन तत्र इत्यत्र अन्तिमवर्णः इकार भूत्वा निट एव अवशिष्यते तदनन्तरम् एतत् इट् अस्ति तद् तदर्थं नकारस्य नकारः जातः यदि इत् अस्ति तस्य पूर्वं नकार प्रथम स्वरस्य पूर्वम् अनुस्वारः भवति परं परम् अनुस्वारं भविष्यति तदनन्तरम् अनुस्वारः अनुस्वारं किमर्थं पूर्वम् अनुस्वारं भविष्यति खलु किमर्थं किमर्थं तत्तु सोपानानि खलु इदानीं वयं कियत्पर्यन्तं वक्तव्यम् इति चेत् मिमाङ्गमपर्यन्तं तावदेव शृणोतु अहं अहं वदामि अहं वदामि पुनः भवती वक्तव्यम् इदानीं पश्यतु अस्माकं मूलधातुः अस्ति निद् इति यदा यत्किमपि धातुः स्वीकुर्मः चेत् अत्र प्रथमकार्यं किम् इति चेत् इत् तदेव प्रथमधातुविज्ञानम् इति पाठे आसीत् तर्हि निद् इत्यत्र अहं पृच्छामि भगिनी वदतु निति इति अस्ति औपदेशिकधातुः तत्र कस्य वर्णस्य इत्संज्ञा केन सूत्रेण भवति इति वदतु नितिः इति औपदेशिकधातुः अस्ति संज्ञा भवति तर्हि इदानीं धातुः कीदृशः अस्ति अस्ति इति चेत् इदि इत धातु अस्ति उपदेशे उपदेशे अच्छ अनुनासिक इति औपदेशिक अनुनासिक इकारस्य इत्संज्ञा भवति इति वक्तव्यम् पश्चात् इदने इ धातुः अस्ति अपि च धातोः आदौ नकारः अस्ति खलु तदेव तदेव प्रथमं करणीयं खलु केन इत्युक्ते इदानीं द्वितीयकार्यमस्ति प्रथमकार्यम् इत्संज्ञाकार्यं तद् जातम् तर्हि इदि धातु अस्ति परन्तु नौनः इति सूत्रस्य प्रसक्तिः अस्ति इति कारणात् नकारस्य नकारः जातः तर्हि निद् इदि अस्माकं लौकिक धातुः अस्ति इदानीम् अत्र अत्र इदानीं प्रक्रिया पश्यामः चेत् प्रथमकार्यं किम् इति चेत् अत्रापि धातौ निमित्तीकृत्य नुमागमः भवितुम् अर्हति यतोहि इति धातुः अस्ति तर्हि केन सूत्रेण वदतु नुमागमः केन सूत्रेण विधीयते कीदृशधातोः समागमः सूत्रेण भविष्यति तर्हि कीदृशधादोः भवति इति सूत्रम् दृष्ट्वा एव ज्ञातुं शक्यते इदिजः नुम् धादोः इति धातोः नुमागमः भवति इति उक्तं तर्हि नुमागमः भवति इति उक्तम् इदानीं नुम् तस्य वर्णविच्छेदं कृत्वा कस्य कस्य संज्ञा इति वदतु धातु अस्ति नुमागमस्य विषये वदतु प्रथमं संज्ञा वक्तव्यं वा नुमागमनुमागमः अस्ति खलु इति आगमस्य विषये वदतु नद् ना, लौकिकधातुः अस्ति निद् इति तत्र इदितो नुमागमः इति सूत्रेण नकारस्य नकारः जायते तद् न नोनः इति सूत्रेण नकारस्य नकारः जायते नद् इति भवति तदनन्तरम् इदितो लुम् इति सूत्रेण च अन्तिम परे लकार भवति तत् लन् निन् इति भवति इदानीं नुम् इति आगमः कीदृशः इति चेत् नकारः उकारः मकारः वर्णत्रयं वर्तते अत्र अत्र मकारस्य संज्ञाकेन सूत्रेण भवति किं सूत्रमस्ति हलन्त्यम् इति सूत्रेण उकारः उच्चारणार्थम् उकारः अस्यापि संज्ञा भवति नकारः एव अवशिष्यते इदानीम् प्रश्नः अस्ति आगमः अस्ति कुत्र आगमः भवति इति आदेशः अस्ति चेत् वयम् जानीमः कस्यचित् वर्णस्य स्थाने भवति इति परन्तु आगमः अस्ति इति कारणात् तद् कुत्र उक्तम् तर्हि तद् कुत्र भवति तत्र अग्रिमसूत्रम् परः इति सूत्रम् साहाय्यम् करोति एतत्तु पारिभाषिकसूत्रम् परिभाषासूत्रम् इति वदामः तर्हि मितजोन्द्यात् परः इति सूत्रम् किम् सूत्रस्य अर्थः अहं बहुवारम् उक्तवती मित्ग आगम मकार हलंध सूत्रेण इत्सा भूत मित्व आगम मित् अभी अस् मित् आगम यद विधीय अत क्य शब्द सेधीय नित् शब्द सेधीय तरी नि शब्द अन्तिम अचुवर्णस्य अन्तिमस्वरस्य अनन्तरं भवति तर्हि निद्य क्रिया अत्र नकारः इकारः दकारः अत्र इकारः अन्तिम अचुवर्णः अस्ति तस्य अनन्तरं भवति तर्हि निन्त् इति लौकिकप्रक्रियार्थं लौकिक धातुः सिद्धः अस्ति इदानीम् इदानीं कस्यापि सन्देहः अस्ति चेत् पृच्छतु तस्मिन् विषये सर्वे अवगच्छति वा पुनरेकवारं वदति वा अवगच्छति अवगम्यते परन्तु पुनः मिदतुपरः इति सूत्रम् एकवारं वदामि वदामि चिन्ता मास्तु हा अग्रे अग्रे तदेव आगच्छति तर्हि प्रक्रिया पश्यामः तर्हि तद् सम्यक् बोधः जायते कुत्र मितयोग्यात् परः इति सूत्रम् किमपि उच्यते केवलं किम् उच्यते मित् आगमः मित् अस्ति चेत् अन्त्यात् अजः परः अत्र नकारः भवति मित् इति आगमः अस्ति इति कारणात् अत्र नकारः एव तिष्ठति तर्हि अयं नकारः कुत्र आगच्छति इति वक्तव्यं तदर्थं सूत्रमस्ति मितशोन्दि आजन्तौ टगितौ इति एकं सूत्रं पूर्वम् उक्तं खलु टकारस्य वित्संज्ञा भवति चेत् कित् अस्ति चेत् कुत्र भवति टित् अस्ति चेत् कुत्र भवति तद्वत् इदानीं अस्ति चेत् कुत्र भवति इति चेत् ौ अंगे विद्यमानस्य अन्तिम अचुर्णस्य अनन्तरम् इति सूत्रेण उक्तमस्ति तर्हि अत्र अग्रे पठिष्यामः पुनः अत्र सन्देहः अस्ति चेत् तद् वदामः वदामि तर्हि शुभश्री भगिनी निधजोन्द्यात्परः इति सूत्रमस्ति खलु तत् अस्तु माता मिद मिदचुन्त्यात् परः तद् तदनन्तरं वा तदेव पठतु मिदचुन्त्यात् परः यः मित् अस्ति सः अचुवर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिमावयवो भवति अन्तिमावयवः भवति यस्य सः मित् बहुव्रीहिः मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तम् परः प्रथमान्तम् अनेकपदमिदं सूत्रम् आद्यन्तौ टथितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे अचः षष्टिविभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निर्धारणम् अंतिम तस्मा अच्ए एक यति आशय बहुवचनमणसमी बहुषु एक जाख्याचनमतर जाति आख्या बहुवचनमतर तह इत्यंच च एकचनेक स्थाने अर्थ स्था षि स्था सूत्रं विशेष अनुत्ति सहित सूत्रम नित् अचह अंतर अंत अलं पढ़ा व न न न इदानीं तावत् पर्याप्तः इदानीं दे, पश्य पश्यतु मि चेतो द्यात् परः इति सूत्रं सूत्रसङ्ख्या प्रथमाध्यायस्य प्रथमपादस्य सप्तचत्वारिंशत् सूत्रम् यः मित् अस्ति सः अच्छेषु अन्त्यात् परः आयाति इदानीम् उदाहरणं वयं दृष्टवन्तः वत् इति आसीत् न नित् इति आसीत् अत्र अन्तिमस्य वर्णः इकारः अस्ति न तु हल् वर्णेषु वारनेश। वर्णेषु कः वर्णः अन्तिमः इति न प्रश्नः स्वरेषु कः स्व वर्णः अन्तिमः अत्र एकः एव स्वरः अस्ति तर्हि तदेव अन्तिमस्वरः तर्हि अस्य अनन्तरम् आगच्छति आगमः तदेव अन्त्यात् परः आयाति इति उक्तम् अचुवर्णेषु अन्त्यात् परः आयाति अङ्गे विद्यमान अचुवर्णेषु अन्त्यात् परः आयाति अपि च अयम् मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति तर्हि अयम् मित् किम् भवति यस्य तस्यम अन्तिम अय अवयवः भवति इदानीम् स्वरवर्णेषु अन्तिमवर्णः इति उक्तम् तत्र अन्तिम स्वर स्वरस्य अनन्तरम् इति उक्तं तर्हि स्वरस्य अनन्तरम् इति एवमेव न उक्तम् अन्त्यात् वरः इति उक्तं तर्हि नुम् इति आगमः कुत्र भवति इति चेत् इदानीम् निन्द् इत्यत्र नि इत्यस्य अनन्तरम् आगच्छति चेत् निन्द् इत्यत्र निन् इति यद् भागः अस्ति तद् तत्र नि इति इत्यस्य अनन्तरम् अन्त्य अवयवरूपेण आगच्छति इति उक्तम् तर्हि नि तावत्पर्यन्तम् यः भागः वर्तते तदेव इदित् इदितो नुम् धातोः इत्यनेन किम् इत्यनेन इति धातुः तर्हि नुमागमः भवति इति उक्तम् अत्र नौनः इति सूत्रेण नकारः जातः तर्हि नित् इति आसीत् तत्र कुत् कुत्र नुमागमः भवति इति प्रश्ने अन्तिम अचुर्णस्य अनन्तरम् इति उक्तम् तर्हि अन्तिम अचुर्णः इति वर्तते तावत्पर्यन्तम् यः भागः अस्ति तस्य अनन्तरम् तदेव अत्र अन्तिमावयवरूपेण इति उक्तम् अवयवः भवति मकारः इति यस्य सः तद् मित् बहुव्रीहि समासः मित् इति प्रथमान्त्यम् अजः इति षष्ट्यन्तम् अन्त्यात् इति पञ्चम्यन्तम् अन्त्यात् इति उक्तम् पञ्चम्यन्तमस्ति तर्हि तस्य परे इति अर्थम् परः इति प्रथमान्तम् अनेकपदम् इदम् सूत्रम् आद्यन्तौ टकितौ इत्यस्मात् अन्धः इति मृतजोद्यात् परः इत्यत्र अन्त अन्त्यात् इति अस्ति खलु अत्र अन्त्यात् इत्यत्र अन्धः इति शब्दः कुतः आगतः इति चेत् आद्यन्तौ टकितौ इत्यस्मात् सूत्रात् आगतम् अस्मिन् सूत्रे अजः षष्टी विभक्ति मिचतो मिचतो मिथजोन्त्यात् परः मित् अजः इति अस्ति खलु तदेव अत्र षष्ठी विभक्तिः इति उक्तम् अन्त्यात् इत्यस्य अर्थः निर् निर्धारणम् नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् अत्र अजः इत्युक्ते दादौ एकाधिकं स्वरः वर्तते चेत् अन्तिमः इति अर्थः अचः एकवचने यतोहि अनेन अच् जाति एव इष्टम् इत्युक्ते जाति अथवा समूहरूपेण तेषु अचुवर्णाः वर्तते चेत् तेषु अन्त्यावयवरूपेण यः अचुवर्णः अस्ति तस्य अनन्तरम् इति एव सूत्रस्य आशयः तर्हि एकवचने यतोहि अनेन अचिजातिः इति इष्टम् आशयः बहुवचनानां निर्धारणम् बहुवचन आशयः बहुवचन निर्धारणसप्तमी बहुषु एकम् इत्युक्ते जात्यजात्याख्यान आख्यायाम् एक बहु बहु बहु बहु एकस्मिन् एग, बहुवचन अन्यतरस्याम् इति सूत्रमस्ति, सूत्रेण किम् उक्तं जाति इत्युक्ते समूहः आख्याम् इत्युक्ते नाम अत्र तादृशसन्दर्भेषु बहुवचनस्य एकवचने प्रयुक्तं चेदपि अत्र किम् इति अचुवर्णेषु एकः इति निर्धारणं स्वीकर्तव्यम् मित्रे अचः अन्त्यात्परः अन्धः अस् अस्य प्रसक्तिः सुबन्धप्रकरणे एव आगच्छति अत्र समूहरूपेण अचुवर्णाः यद् सन्ति तेषाम् अनन्तरम् अत्र अजः इति एकवचने यतोहि अनेन अच् त्याधिः इष्टम् अतः अजः इति समूहरूपेण उक्तमस्ति अच् जाति उष् उक्तमस्ति आशयः बहुवचनं निर्धारणं निर्धारणष् सप्तमी इति उक्तम् सप्तमी इति अत्रापि बहुषु एकम् इत्यस्य अनुक्ति अस्ति जाति एकस्मिन् बहुवचनम् अन्यतरस्यां किमर्थं बहुवचनम् इति चेत् अत्र समूहरूपेण यत्र प्रयुक्तं वर्तते तत्र बहुवचनार्थं वर्णेषु एकः एव वक्तुं शक्यते तर्हि अजः अजः एकवचने चेदपि सार्वत्रिकबहुवचनार्थकः य अच्छा इदी सूत्रे अस्कवनमे बोधय बहुवचनाक इति विपत्ते आर्थ स्थाने इदिना, स्थाने ष्टिस्थ योग विशेष अनुवृत्तिसहितसूत्रं मितः अच् अन्त्यात् परः अल अन्धः परः अन्धः इति अयमेव सूत्रस्य अर्थः तर्हि कुत्र आगच्छति नुम् इति आगमः इति चेत् दातौ विद्यमानस्य अन्तिम अच् वर्णस्य अनन्तरम् इति एव अत्र उक्तमस्ति तस्यापि सन्देहः अस्ति चेत् इदानीं पृच्छ अत्र किं भगिनि बहुवचने इत्यत्र एकम् उदाहरणं दातुं शक्यते वा सुबन्ते इति उक्तवती न अजः इति अस्ति खलु अजः अजः इति इत्यस्य विभक्तिवचनं किम् आम् एकवचने उक्तमस्ति खलु षष्टि एकवचनम् बहुषु बहुषु एवम् अत्र अजामध्ये एकः अचुर्णः एव स्वीकृतं खलु यद्यपि तदेव अत्र विवर विवरणम् इदा इदानीं धातौ एकाधिकं तिष्ठति चेदपि अत्र अन्तिमस्वरः यद् वर्तते तस्य अनन्तरं विधीयते अनेन एतत् कुत्र पठने पठितुं शक्यते चेत् सुबन्धप्रकरणे आगच्छति अत्र फलं फले फलानि इति अस्ति खलु अत्र नकारः अग्रे आयास्यति खलु फलम् तर्हि अस्मिन् सूत्रे नुमागमः यस्य ततः पठनीयम् इदानीं विमला पठितुं शक्य मणिकुमारी भगिनी कां पृष्टवती विमलाभगिनी न पठितवती खलु विमलाभगिनी पठ पठ अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिमावयवयवो भवति इत्युक्तम् अस्य अर्थः कः इति स्पष्टं भवति ज्ञान ज्ञानशब्दः बहुवचने ज्ञानानि भवति ज्ञान आ, प्लस इ शी प्रत्ययः लशक्वद्धिते इति इत्यनेन इका इ अवशिष्यते मिद् मिद मिदचोन् मिदचोन्त्या परः इत्यनेन नुमागमः ज्ञान प्लस न प्लस इ अयं नकारः ज्ञान इति अंगस्य वर्णसमुदायस्य अन्तिमावयवः अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अंगस्य उपधायाः दीर्घः ज्ञानान प्लस् इ ज्ञानानी यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत् भविष्यत् अकारः उपधायां न भविष्यत् सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अकारस्य दीर्घादेशः च न भविष्यत् hmm. प्रश्नः अत्रोप hmm. hmm. अनन्तरं पठतु एतत् स्पष्टीकरोतु अनन्तरं वक्तुं शक्यते खलु प्रयत्नं करोतु न आगच्छति चेत् अहं प्रत्येकं प्रति पठित्वा वद अहं वदामि तदनन्तरं भगिनी एव पठतु अस्मिन् सूत्रे मुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवौ भवति इति उक्तम् तर्हि वर्णसमुदायस्य आगमः तर्हि अचुवर्णः यत्र अन्तिम अचुवर्णपर्यन्तं यानि वर्णसमुदानि समुदायं वर्तते समुदायः वर्तते तदेव अत्र अङ्गं खलु तर्हि इदानीं नुम् इति आगमः अत्र ज्ञाना इति उदाहरणमस्ति खलु ज्ञाना इत्यत्र नकारोत्तरवर्ति एकः अकारः तिष्ठति तदेव अत्र अन्तिम अचुवर्णः ज्ञाना तर्हि ज्ञानायोगः इन् इति भवति तदेव वर्णसमुदायस्य अनन्तरम् इति उक्तम् अन्तिमवयवरूपेण तर्हि अकारस्य अनन्तरं यः नकारः आगच्छति तदेव अन्त्यावयवः इति वदामः अवगतं वा सन्देहः अस्ति वा ज्ञातं सम्यक् अस्य अर्थः कः इति स्पष्टं भवति सुबन्धप्रकरणे तदर्थं सुप्प्रत्य सुबन्धप्रकरण स्वीकृत्य एकम् एकम् उदाहरणम् अत्रत्य स्वीकृत्य उक्तमस्ति ज्ञानशब्दः बहुवचने ज्ञानानि भवति कथम् इति पश्यामः ज्ञानायोगः इ अत्र नपुंसकलिङ्गे शि सर्वनामस्थानम् इति एकसूत्रमस्ति अनेह अने अनेन अने सूत्रेण किमुच्यते सू इति चेत् सु औट् जस् हम् औट् झस् इति अस्ति खलु अत्र जस् शसोः किं भवति शि आदेशः भवति यतः शि इति भवति तत्र दचकोदी इत्यनेन इकारस्य क्षम्यता इत दशकुतद्विते इत्यनेन सकारस्य इत्सञ्ज्ञा भवति इकारः एव अवशिष्यते तर्हि इदानीं बहुवचनस्य प्रत्ययः कः इति चेत् केवलम् इकारः नुम् इति आगमः यदा भवति पश्चात् अत्र इकारः वर्तते तर्हि नि इति भवति तदेव फलानि इति रूपः इत्यनेन नुमागमः ज्ञानायोगः नायोगः ना इ अयं नकारः ज्ञाना इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयव इति कारणेन सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अङ्गस्य उदायाः दीर्घः तत्तु भिन्नकार्यमस्ति तद् वयम् इदानीम् अवधानं न ददामः यदि नकारः ज्ञाना इति अङ्गस्य अन्तिम अवयवः न भवे भविष्यति भविष्य न अभविष्यत् अकारः उभधायाम् न अभविष्यत् यदि नकारः ज्ञाना अंगस्य अङ्गस्य अन्तिम अवयवरूपेण न आगच्छति चेत् अत्र उभधायाम् अकारः अस्ति खलु तदपि न अभविष्यत् इति अस्य दीर्घ ज्ञाना इति दी अस्य कारणमेव अत्र उक्तम् सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अकारस्य दीर्घादेशः भवति तर्हि न अभविष्यत् इति भवति तदर्थं सूत्रमस्ति सार्वनामस्थाने च असम्बुद्धौ तर्हि किं किं सम्बुद्धौ इत्युक्ते यत्र सम्बोधना प्रथमा अस्ति तत्र न भवति सर्वनामस्थाने इत्युक्ते प्रथमा बहुवचनं द्वितीया बहुवचनं नपुंसलिङ्गप्रत्ययस्य विषये उक्तमस्ति तदेव अत्र विवरण विवरणम् इदानीं तस्यापि अस्मिन् विषये सन्देहः अस्ति चेत् पश्यतु पृच्छतु न श्रूयते सम्बोधनाविभक्तौ न आयाति इति न वा सम्बोधनविभक्तौ न आयाति सर्वनामस्थाने आयाति इति किं ज्ञायति चेत् अत्र दीर्घम् उक्तं खलु जानानि तत्रैव उक्तम् दीर्घत्वं भवति इति अनेन सूत्रेण तर्हि अग्रिमपरिच्छदः पठतु प्रश्नः अत्र इति मणिकुमारी भगिनी न पठितवती Um, प्रश्नः अत्रोक्तं ज्ञानयुक्तम् ई षी प्रत्ययः केचन श्रुतवन्तः स्युः यत् सुबन्तविषये प्रत्ययाः भवन्ति टु औ जस् इत्यादयः तर्हि प्रथमाविभक्तौ बहुवचने जस् इति प्रत्ययः भवेत् किल कदम वा शी जैत उत्तरमस्त ये मूल प्रत्यु जो सत्यं कि अनतर प्रत्यदेश मूल प्रत्यना आदेश विषय लिंगमृत कुचि प्रातिपद प्रातिपद अन्तिमवर्णम् अनुसृत्य च आदेशाः विद्यन्ते नपुंसकलिङ्गे जस्व जस्वसोः शिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने शि आदेशः अनेन नपुंसकलिङ्गे प्रथम प्रथमविभक्तौ बहुवचने विकारः आयाति वनानि वारीणि जगन्ति कर्माणि धनुंषि मनांसि उत्तमं तर्हि अत्र किम् एते पूर्वधनपरिचेते उक्तं तदेव जस् षोः शि इति अस्ति खलु जस् इति प्रथमाविभक्तिबहुजनप्रत्ययः नपुंसकलिङ्गप्रत्ययः षस् इति दि द्वितीयाविभक्तिबहुजन नवंसकलिङ्गप्रदेयः अनयोः स्थाने क्षीरि आदेशः भवति शीदि आदेशे चकारस्य रसः क्वथते इत्यनेन संज्ञा भवति इकारः एव अवशिष्यते तर्हि नुमागमस्य अनन्तरम् अत्र कीदृशकार्यं भवति इत्युक्ते ना इति नुम् इति आगमः कुत्र भवति इति चेत् अन्तिम अच्छ्वनस्य आनन्दरं भवति इति उक्तं तर्हि अत्र उदाहरणरूपेण ज्ञानाशब्दः स्वीकृतमस्ति ज्ञानशब्दे अकारोत्तरवर्ति अकारः यद् वर्तते तदेव अत्र किं भवति अस्य एव इकारः आदेशः भवति यतोहि ज्ञानायोगः ज्ञानायोगः युगा नायोगः इति ज्ञानानि अत्र ना इति कथं भवति इति चेत् सर्वनामस्थाने च सम्बोधो इत्यनेन हृस्वकारस्य दीर्घत्वमपि भवति तर्हि ज्ञानानि इति रूपम् इदानीम् एकवारं सूत्रार्थः वदामि पूर्वोक्तम् ज्ञानायोगः ई केचन श्रु श्रुतवन्तः स्युः यद् सुबन्ध विषय प्रत्यय सुजस् इदय तथमाभक् बहुवजने ज्यय भव कथम वी तद स्त्र जो शि उत्तरमस्ती तूल प्रत्यय सुजस किंतु अन प्रत्यादेश मूल प्रतयाना आदेश सुबंधव लिंगम असृत कु किपीक अंतिम वर्ण अ आदेश विद्य नपुंसकलिंगे जशसो शीन नपुशला नपुंसीका अंगा शस, जस, जस्ताने आदेश अनान नपुंसकिंगे प्रथमा विभक्ति बहुवजने कारः आयाति वनानि वारिणि वारिणि मधूनि जगन्ति कर्मणि धनुंषि अत्र सर्वत्र पश्यतुमागमः दृश्यते एव इदानीम् अस्मिन् प्रसङ्गे कस्यापि सन्देहः अस्ति चेत् <laughs> इत्युक्ते प्रथमं प्रत्याः सु औष परन्तु नपुंसकल्लिङ्गे शी आदेशरूपेण आगच्छति अत्र शकारः अपगच्छतिकारः एव अवशिष्यति अनन्तरं तत्र मिड मित् मि मिडचोरन्ते अनेन नकारः आगच्छति अतः वनानि वारीणि इति रूपम् आगच्छति यतोहि किमर्थम् आगच्छति अत्र किमर्थम् अत्र यत् आगच्छति नकारः वा भिन्नसूत्र भिन्नसूत्रेण आगच्छति स्थाने तर्हि जस्थाने श्री आयाति वा आम् नपुंसकलिङ्गे एव प्रथमाविभक्ति बहुजनप्रत्यये द्वितीयाविभक्ति बहुजनप्रत्यये श्री आदेशः भवति सुबन्धप्रकरणम् अपि वयं पठिष्यामः अत्र आगच्छति एव हृदय इदानीं तिङन्दप्रकरणमस्ति खलु यद् वयम् इदानीं पठ पठामः इदानीं कृदन्तं तिगन्तं तदेव अस्ति खलु तदस्य अनन्तरं तदपि आगच्छति शिशिलपगिनी पठितवती तर्हि शैला भगिनी भगिनी अग्रे पठतु आम् आं तर्हि नुम् इति अस्ति खलु तर्हि नुम् आगमः मित् अस्ति मित् अस्ति मकारः इत् यस्य सः मकारः इत् यस्य सः अतः अच् अच् कथं पठनीयं महोदय् अच् अन्त्य अन्त्यात् परः आयाति अचः इति अस्ति खलु भगिनी अत्र विसर्गः न पश्यति वा आं विसर्गमस्ति महोदय अचः अचः अन्यात् अन्यात् परः आयाति उत्तम निर्दि वा निधि निधि निर्दि निर्दि नु आगमः मित् मित् अस्ति ्री नुम आगमः मित् अस्ति मकाराः इत् यस्य सः अतः नुम् अचः अन्त्यात् परः आयातिशन् द्विवारम् अस्ति वा महोदय क्षम्यतां hmm? निर्दि निर्द् धातौ नकार नकारोत्तरवर्ति नकारोत्तरवर्ती इकारः अन्तिमः अन्तिमः अन्तिमः अच् अच्च अतः तस्मात् परे नुम् आयाति तर्हि तर्हि नि न इति स्थितिः निन्द इति दातु निश निश्यन् निश्य निष्पन्नः किमि किमिति महोदय निष्पन्नः निष्पन्नः त्र इति दृश्यते निष्पन्नः धन्यवादः भगिनि अस्तु महोदय तर्हि नुम् इति आगमः मित् अस्ति मकारः इति सः अतः नुम् अजः अन्त्यात् परः आयाति तर्हि निन्द निंद्याद, जा निद् धातोः नकारोत्रवर्ति यः इकारः अस्ति सः एव अन्तिम अचुर्णः तर्हि तस्मात् परे नुम् इति आगमः यदा आगच्छति तर्हि नियुगः निन्दयुगः इति अस्ति निन्द् इति लौकिकधातुको निष्पन्नः धनि मिति इति अस्ति तद् कर्तव्यं वस्ला भगिनी प्रयत्नं करोतु का अस्ति वद् वन्द्गिनि भगिनि अत्र मन्द मन्दगिनी अत्र मती इति दृश्यते वा मन्द वदि वन्द्गिनि भगिनि किम करणीयम् इति मया उक्तं खलु कथं शोभानानि वक्तव्यानि वदतु मर्दि मन्द भगिनि किमपि बंद, आग, नास्ति अत्र मित् इति एव अस्ति कथं मन्द् इति जातम् इति वक्तव्यं वन्द् वन्द् इति आगच्छति प्रथमं तदनन्तरम् अजन्तवर्णात् परम् इन् आग आगच्छति अत्र वन्द् इति भवति नास्ति लेस् जापदिनी भगिनी प्रयत्नं करोतु आं भगिनि मति इति किम् अस्ति औपदेशिकधातुः अस्ति तद् कथं मन् म इति जातम् इति वक्तव्यम् अच् अन्ते अच्छ, आ, आ, आ। इकारस्य इत्संज्ञा भवति mm -hmm. मद् मदि इत्यत्र ईकारस्य अन्तिम इकारस्य इत्संज्ञा भवति mm -hmm. तद् मद् इति भवति mm -hmm. तद् इदितो नुम् इति सूत्रेण अन्तिम mm -hmm. अच परे लकार mm -hmm. भवति mm -hmm. तद् मन् इति भविष्यति mm -hmm. अन्तिम आचरणः कः अत्र अकारस्य अनन्तरम् उत्तम इदानीम् अवगतं वा वल्सला भगिनी इदानीं वदति इति वदतु किं कथम् इति अनुमत ईकार इत्सन्ध्या भूत्वा गच्छति लोपः भवति अतः वद् इति आगच्छति वद् उपदेश अनुशांसिकयुत् भूत्वा वद् भवति वद् इदितो नुम धातोः इति अश्वरस्य परनुगामः भवति तत्र वद् वन्द् इति भवति अत्र कः वन्ध् वा प्लस्कारस्य वकारात् परंमागमः भवति वन्ध् इति भवति उत्तम इदानीं शुभश्री भगिनिकरौ तु अग्रिमं भदि इत्यत्र बद्ध इति कथं भवति अस्तु अस्तु भगिनी भदिम् इति उपदे आ, आ, उपदे आ, उपदेशे भव अस्ति उपदेशो जनुनासिक इत् इति सूत्रेण इन् इत्यस्य लोपः भवति अनन्तरं ददि एव अवशिष्यते इदितो धाई सूत्रेण अंतिम अज अज आकार सेर मु अत अत भन्द अोपना दत्त अस्तु भगि पश्य तद् स्वीकृत्य एकनिमिषम् एकनिमिषम् अत्र यदि इदानीं भन्द इति अस्ति खलु यदि भगिनी उक्तवती आसीत् अत्र वधि इति अस्ति भति इति तद् दृष्ट्वा वदतु तान् तद्वत् सोपानानि वदतु तत् दृष्ट्वा एव अहं न नन्तरम् अनन्तरम् इदानीं वन्द् अनुस्वारं भवति वन्द् इति नकारस्य अनुस्वारं तद् वदति तद् वक्तव्यम् अस्तु अनन्तरं वन्द् इति वन्द् इत्यस्य इति रूपस्य नकारस्य अनुस्वारं भवति नश्चापदान्तस्य झलि सूत्रेण सूत्रार्थः जानाति जाना वा सूत्रार्थः न जानामि धातोः पर्यन्तमेव अहं जानामि अत्र नकारः कुत्र अस्ति पदान्ते नास्ति खलु अवदान्तं पदान्ते उपधाय तर्हि अवदान्तम् न अवदान्तस्य छली इति उक्तम् अनुस्वारादेशः भवति इति सूत्रस्य अर्थः अवदान्तनकारस्य अनुस्वारादेशः भवति अस्तु अनन्तरं वन्द् इति पुनः वन्द् इति भवति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य नु। ययि कुत्र अस्ति ययि परसवर्णः इत्युक्ते दकारः अस्ति खलु यै जनेन प्रत्याहारः प्रत्या पश्यतु उत्तमं तदेव पुनः अनुस्वारादेशः भवति अनेन भवति यै वर्णः परे अस्ति इति कारणात् अनुस्वारस्य परसवर्णादेशः भवति इदानीम् अत्र दकारः अस्ति राधा दा दादा न एव तर्हि स्वरस्य स्थाने पुनः नकारादेशः भवति वन् इति एव लव् करो अस्तु धन्यवादः उत्तमम् अग्रे पठामि वा भगिनी पृच्छतु आ, वन्द दातोः इति तु नु नुम् नुम दातोः इति कारणेन वन्द प्राप्यते पुनः द्वितीयं तृतीयं स्वपनं किमर्थं किमर्थमिति चेत् तादृश सर्वत्र वर्तते खलु अस्य एव एतादृशरूपं भवति परन्तु अन्यत्र तादृशं नास्ति खलु ओहो दातु मन्द धातु इति स्वीकरणं कर्त्य कर्तव्यं चेत् मन्द धातु मदीङ् सा, <laughs> सारि बिद्य <laughs> बन्द् बिदं <बंद, न>? धातु <laughs> स्वीकरणं चेत् बिदं बिद् उपदेश अर्जन इत्समया इस, भूत्वा इच्छति तस्य लोपः सो <laughs> बिद् एव तिष्ठति <श्चती>, इति तु <laughs> नुमामः बिन्द आगच्छति परन्तु <laughs> पदान्तस्य जली स्वीकरणीयं वा तत् सोपान अपदान्तनकारः अस्ति खलु अपदान्तनकारस्य चलवर्णे परे अनुस्वारादेशं भवति किं भवति अनुस्वारस्य ए परसवर्ण परसवर्णसन्ति भवति भगिनि बन्द् धन्यवादः एतत् हल्सन्ति सूत्राणि कार्यं करोतु अस्तु अस्तु इदानीं लाच्छी इति अस्ति का पूर्णिमा भगिनी वक्तुं शक्यते वा भगिनि स्वास्थ्य सम्यक् अस्ति वा भगिनी अहम् उज्जैन्यामेव अस्मि श्रुणोतु तर्की शृणोतु अल करोमि परन्तु उपनेत्रं न आनीतवती सम्यक् न दृश्यते वा अस्ति परन्तु पठितुं नश्चा पदा तश्च इति तत्र हलि तत्र न तस्मात् पूर्वं चिन्ता मास्तु भगिनी तस्मात् पूर्वं चिन्ता वन्द् नश्चा न भगिनि तद् नास्ति तस्मात् पूर्वं ल् लाच्छी इति अस्ति खलु लाची अन्ते इकार जननासिका इकारस्य इत्सर्गा भूत्वा तस्य लोपः उपदेशे जननासिकः इति सूत्रस्य आधारेण इकारस्य इत्सञ्ज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति लाच् इति पदः भवति लाच् इति पद हलन्त अस्ति हलन्तमध्ये अकार अस्ति अकारानन्तरं नुमागमः भवति नुमागमः भूत्वा लाञ्च् इति भवति ला इति भूत् भवति तत् न अनुस्वारस्य पर परसवर्णस्य सूत्रमस्ति खलु मोनुस्वारः इति अनुस्वारः भवति अनुस्वारस्य ययि परसवर्ण इति सूत्रस्य आधारेण परसवर्णः भूत्वा लाञ्च् इति भवति सम्यक् मोनुस्वारः करोति मोनुस्वारः उपरि गतवती मोनुस्वरः लाञ्च् इति अस्ति खलु लाञ्च् मध्ये नकारस्य अनुस्वार च व्यञ्जनम् अस्ति इति कारणेन अनुस्वारः भवति अनुस्वारस्य यीसव परसवर्णे इति तस्य आधारेण परसवर्णः भवति अन्तिमस्वर र्गस्य अन्तिमस्वर नकारः आदेशः भगिनी नस्य पदान्तस्य जलि इति सूत्रेण भवति इति अत्र दत्तमस्ति भगिनि भगिनि मकारस्य मकारादेशः नस्य पदान्तस्ति किं वक्तव्यम् इति चेत् अत्र मोन्स्वारः इति सूत्रेण कुत्र कार्यं व्यञ्जनपरे अस्ति चेत् इति भगिन्या उक्तम् परन्तु मकारः कुत्र अस्ति चेत् पदान्तस्य तर्हि तद् वक्तव्यं खलु इदानीं पदान्तमकारः अस्ति वा न न पदान्त न अस्तु तर्हि नकारस्य नकारस्य एव पञ्चमवर्ण आदेशः भवति वा तर्हि अत्र मोन्स्वारः इति सूत्रं न कार्यं करोति लाञ्ची इति सर्वे किंजित म्यूट् करोतु सर्वे म्यूट् करोतु नोट करो अस्ति, कौ लाची औपदेशिका अस्तिम कीदृशे चे असीक इकार अस्पेशे अच्छुना सूत्रेण संज्ञा होता तर लोप है सूत्रेण अोपकार्यम अवती अयम धा इधं धा अस् तर्हि इद इदितो नुम् धातोः इत्यनेन नुमागमः भवितुम् अर्हति लाञ्च् लोगः लाञ्च् इत्यत्र तर्हि नुम् इति आगमः कीदृशः इति चेत् नुमागमस्य मकारस्य हरन्त्यम् इति सूत्रेण संज्ञा भवति उकारः उच्चारणार्थम् अयं मित्तस्ति मित्तस्य इति कारणात् मितजोद्या सूत्र सूत्रेण अंतिम अच्वर्ना पर अयुद विधीय लाचात लकारोद यहांते सविम अच्वर्ण लाग नोग छाव अय अवद अस्ण अरे छल वर्ण अस्कार छली अस् ला नकार सेवादेश अन संधिकार से प्रसृति अस्वर्णस अवसर है वर्तमान लाछ असिवर्ण है नकार पंचमवर्ण अर्त अरसवर्णसंदेह अवसर अस्ती पर कवर्गीयर्णेशु पंचमर्ण नकार नकार अस्त इदानम अर्ण आदेश रूपेण आगछती चेत चवर्गीयर्णेशु पंचम आगछति लाञ्ज् इति रूपं निष्पन्नं तर्हि कपि इत्यत्रापि अन्तिमकारस्य संज्ञा भवति तस्य लौभः इत्यनेन लोपकार्यमपि भवति कप् इति लौकिकरा धातुः निष्पद्यते कप् इति धातुः इति धातुः अस्ति इतोऽनुम् धातुः इत्यनेन नुमागमः विधीयते नुमि नुम् आगमः मित् अस्ति मित्त अस्ति इति कारणात् मि, मितचोद्यात् परः इत्यनेन अन्त्यात् अजः परः नुमागमः विधीयते कप् इत्यत्र अन्तिम अचुवर्णः ककारत्रवत् अकारः अस्ति अस्य अनन्तरं नकारः आगच्छति तर्हि का युवकः न योगः प इति अस्ति अत्रापि अवदातनकारः अस्ति इति कारणात् परे छल्वर्णः पकारः अस्ति अतः नकारस्य स्थाने अनुस्वारादेशः भवति कम्प् इति लौकिकधातुः निष्पद्यते इदानीम् अत्रापि किं भवति मका अत्र अनुस्वारस्य मकारादेशः भवति कम्प् इति निष्प रूपं निष्पद्यते किमर्थम् इति चेत् अत्र अनुस्वारस्य ए परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने आदौ नष्टापदाङ्गस्य दली इति किं भवति अनुस्वारादेशः भवति अनुस्वारस्य ए पनसवर्णः इत्यनेन मकारादेशः अपि भवति वदतु इदानीं प्रश्नः अत्र निगतोन्तरपरः नि मकारः इति अस्य सः मकारः नुम् अत्र मकारः वा तदेव अहं पश्यामि ऐ मीन् कापिला लाची अत्र मकारः कः इति अहं पश्यामिति आगमः इति कृत्वा अत्र नुम् इति आगमः आगमे एव नकारः अस्ति खलु अन्यत्र कुत्रापि नास्ति मकारः इत्यस्य सः तत् नुम् इति आगमः एव बहुव्रीहिसमासः खलु अन्यपदं तर्हि नुम् आगमः एव अनेन विवक्षितः तर्हि अत्र नुम् आगमे नकारः एव अवशिष्यते अयं नकारः कुत्र आगच्छति इति एव सूत्रेण उक्तम् अस्तु सम्यक् चिन्तनम् लबि इत्यत्रापि इकारस्य न भूत्वा लोभः भवति लब् इति अवशिष्यते अत्रापि इति मिदजो, अस्ति मितजो इदतो नुम् धादोः इत्यनेन नुमागमः गा भवति गा अयं नुम् इति आगमः मित् अस्ति मित् अस्ति इति कारणात् मितजोध्यात्परः इत्यनेन परे आगच्छति तर्हि ल इति अन् अकारः लकारोऽत्र अन्तिमा च वर्णः ला योगः नायोगः बा इति अस्ति अत्र पुनः नश्च पदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारादेशः भवति अनुस्वारस्य ई परसवर्णः इत्यनेन पुनः अत्र अनुस्वारस्य परसवर्णः मकारः एव आगच्छति लम्ब् इति लौहिकधातुः निष्पद्यते इन अंदेह अस्सी चेत पनता वय स्थया आगामने सप्ताह वर्ग भविष्य अहम वादा इनमें रेका अथगे क्या सदेह अस्त चेत कृपया प